श्रीहरिः नमः अथ द्वितीयोऽध्यायः श्रीशुक उवाच एवं पितरिसम्प्रवृत्ते तदनुशासने वर्तमान आग्नेद्रो जम्बु द्विपौकसप्रजा औरसवत् धर्मा पर्यगोपायत् सचकदाचित् स च कदाचित् पितृलोककामः सुरवरवनिता क्रीटाचलत्रृण्या भगवन्तं विश्वसृजां पदिमावृतपर्चर्योपकरण आत्मजगाग्र्येण तपस्वी आराधयाम्बूव तदुपलभ्य भगवानादिपुरुष सदसि गायन्तीं पूर्वचित्तिं नामप्रसरसम् अभियापयामास सा च तदाश्रमो भवनम् अतिरमणीयं विविदनिबिडबिटपि विटपनिकरसं श्लिष्टर लतारूटस्थलविहङ्गम मिथुनैः प्रोच्यमानश्रुतिभि प्रतिबोध्यमान सलिलकुक्कुडकारण्ढव कलहंसादिभिर्विचित्रम् उपगूजितामलजलाशय कमलाकरमुपब्राह्म तस्या सुललितगमन पदविन्यास कणकणाय मानरुचिरचरणाभरणस्वनम् उपाकर्ण्यनरदेवकुमारः समाधियोगेन आमीलितनयननलिन। मुकुलयुगलम् ईषत्विकचय्यव्यचष्ट तामो वा विधूरे मधुकरीमिव सुमनस उभजिग्रन्थीं दिविजमनुज मनोनयनाह्लादुकैर्गतिविहारव्रीता विनयावलोक सुश्वराक्षरावयवैर्मनसि नृणा कुलमायुधस्य विदधति विवरं रुतासव, सकाशभाषणामोध मदान्तमधुकरनिकरोपरोधेन धृतपथविन्यासने वल्घुस्पन्दनकलशकभरभाररसनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो मगरगध्वजस्य वसमुपनीतो जडवदिदिहोवाच वा का त्वं चिकीर्षसि च किं मुनिवर्यशैले मायासि कापि भगवत्परदेवतायाः विद्ये बिबर्षिधनुषे सुहृधात्मनोऽर्थे किं वा मृकान् मृगयसे विपिने प्रमथान् बाणाविमौ भगवत शतपत्रपत्रौ सान्ताबपुङ्करुचिरावधि दिग्मदन्तौ कस्मै युयुङ्क्षिवने विचरन्न विद्मः क्षेमायनो झटति यां तव विक्रमोऽस्तु शिष्या इमे भगवतः परितः गायन्ति सामसरहस्य मजस्रमीशम् युष्मच्चिका विलुलिता सुमनो विवृष्टि सर्वे भजन्ति ऋषिगणा इव वेदशाखाः परं चरणपञ्चरतित्तिरीणां ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम् लब्धा कदम्बरुचिरङ्गविटङ्गबिम्बे यस्य मलातपरिधिकवचवल्कलं ते किं सम्भृतं रुचिरयोद्विजशृङ्गयोस्ते मध्ये कृसो यत्र दृशिश्रुता मे येनाश्रमं सुभगमे सुरभीकरोषीं लोकं प्रदर्शय सुहृत्तम तावकं मे यत्रत्ययित्तं वुरसावयवावपूर्वौ अस्मद्विदश्यमन उन्नयनो बिभर्ति भगवद्भुतं सरसरा स सुधाति वक्त्रे का वात्मवृत्तिरधनाद्धभिरङ्गवती विष्णो कलास्य निमिषोन्मकरौ च कर्णौ उद्विग्नमीनयुगलम् द्विजभङ्क्तिशोषे आसन्नभृङ्गनिकरं सरयिन्मुखं ते योऽसौ त्वया करसरो जहत पदङ्गो दिक्षु ब्रह्मन् भ्रमतये जयते क्षिणी मे मुक्तं न ते स्मरसि वक्त्रजटावरूतं कष्टो निलोहरतिलं पटये शनीवे रूपं तपोधन तपश्चरतां तपोग्नं, ह्यतत्तु केन तपसा भवतोपलब्धम् चर्तुम् तपोर्हसि मया सह मित्रमह्यम् किं वा प्रसीदति स वै मां चारुश्रृङ्ग्यर्हसि नेतुम् अनुव्रतं ते चित्तं यतः प्रतिशरन्तु शिभाशिं यः श्रीशुक इति ललनानुनयाति विशारदों ग्राम्यदैवग्धयया परिभाषया तां विभुतवधों विभुतमति अधि सा च ततस्तस्य वीरयूतपधेर्बुद्धिशीलरूपवयश्रियौधार्येण पराक्षिप्तमनास्तेन सखायुतायुतपरिवत्सरोपलक्षणं कालम् जम्बूत्विपपतिना भौम स्वर्गभोगान् तस्यामुहभान् स राजवर आग्नेत्रो नाभि किं पुरुष हरिवर्षे इलावृतरं यः हिरण्मय कुरुभद्राश्वकेतुमाल जनय सा गृहएवापहाय पूर्वशिर्भूयेजम दुपतस्ते आग्सुदस्ते मधुराग्रहापत्ति के नाव पित्रा विभक्ता, भक्ता आत्मल्यनाभाग जम्बोद्वीपवर्षाणि बुभुजुः आग्निद्रो राजतृप्तः कामानामप्सरसमेव अनुदिनम् अधिमन्यमानस्तस्य सलोकतां श्रुतिभिरवारुन्धयत्र पितरो मादयन्ते सम्परे ते पितरि नव भ्रातरो मेरो दोहेत्रोर्मेरुदेवीं प्रतिरूपा उग्रतं षट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमिति संज्ञा नवोदवहन् इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे वाग्नित्रवर्णनं नाम द्वितीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहाराज के जय